ंशः सर्गः सबले सागरम् तीर्णे रामे दशरथात्मजे अमात्यौ रावणः श्रीमानब्रवीच्छुकसारणौ समग्रम् सागरम् तीर्णम् दुस्तरम् बलम् अभूतपूर्वम् रामेण सागरे सेतुबन्धनम् सागरे सेतु बन्धन्तम् कथञ्चन अवश्यम् चापि सङ्ख्येयम् तन्मया वानरं बलम् भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौ परिमाणम् च वीर्यम् येच ये च मुख्याः येच रामस्य सुग्रीवस्य च सम्मताः ये पूर्वमभिवर्तन्ते ये च शूराः प्लवङ्गमाः स च सलिलार्णवे निवेशम् च यथा तेषाम् वानराणाम् महात्मना रामस्य व्यवसायम् च वीर्यम् प्रहरणानि च लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुमर्हतः कश्च सेनापतिस्तेषाम् वानराणाम् महात्मना तच्च ज्ञात्वा यथा तत्त्वम् शीघ्रमागन्तुमर्हतः इति प्रतिसमादिष्टौ राक्षसौ सुखसारणौ हरिरूपधरौ वीरौ प्रविष्टौ वानरं बलम् ततस्तद्वानरं सैन्यमचिन्त्यम् लोमहर्षणम् सङ्ख्यातुम् नाध्यगच्छेताम् तदातौ शुकसारणौ तत्स्थितम् पर्वताग्रेषु निर्झरेषु गुहासु च समुद्रस्य च तीरेषु वनेषुपवनेषु च तरमाणम् च तीर्णम् च तर्तुकामम् च सर्वशः निविष्टम् निविशच्चैव भीमनादं महाबलं। तद्बलार्णवमक्षोऽभ्यम् ददर्शा ते निशाचरौ तौ ददर्श महातेजाः प्रतिच्छन्नौ विभीषणः आचक्षेस रामाय गृहीत्वा शुकसारणौ तस्यैतौ राक्षसेन्द्रस्य मन्त्रिणौ शुकसारणौ लङ्कायाः समनुप्राप्तौ चारौ परपुरञ्जय तौ रामं व्यथितौ रामम् जीविते तथा कृताञ्जलिपुटौ भीतौ वचनं चेदमूचतुः आवामिहागतौ सौम्य रावणप्रहिता बुभौ परिज्ञातुम् बलम् सर्वम् तदिदम् रघुनन्दना तयोस्तद्वचनम् श्रुत्वा रामो दशरथात्मजः अब्रवीत्प्रहसन्वाक्यम् सर्वभूतहिते रतः यदि दृष्टम् बलम् सर्वं वयं वासु सुसमाहिता यथोक्तम् वा कार्यं कार्यम् प्रतिगम्यता अथ किञ्चित् दृष्टम् वा भूयस्तद्द्रष्टुमर्हतः विभेषणो वा कार्त्स्न्येन नचेदं सन्दर्शयिष्यति प्राप्य भेतव्यम् जीवितम् प्रति न्यस्तशस्त्रो गृहीतौ च न प्रच्छन्नौ च विमुञ्चेमौ चारौ रात्रिम् च राबुभौ शत्रुपक्षस्य सततम् विभीषणविकर्षिणौ प्रविश्य महतीम् लङ्काम् भवद्भ्याम् धनदानुजः वक्तव्यो रक्षसाम् राजा यथोक्तम् वचनम् मम यद्बलम् त्वम् समाश्रित्य सीताम् मे हृतवानसि तद्दर्शय यथा कामम् ससैन्यश्च स बान्धवः श्वः काल्ये नगरीम् लङ्काम् स प्राकाराम् सतोरणाम् रक्षसाम् च बलम् पश्य शरैर्विध्वंसितम् मया क्रोधं भीममहं मोक्ष्ये ससैन्ये त्वयि रावण श्वः काल्ये वज्रवान् वज्रम् दानवेश्मिम वासवः इति प्रतिसमादिष्टौ राक्षसौ सुखसारणौ जयेति प्रतिनन्द्यैनम् राघवम् धर्मवत्सलम् आगम्य नगरीम् लङ्कामब्रूताम् राक्षसाधिपम् विभीषणगृहीतौ तु वधार्थं राक्षसेश्वर दृष्ट्वा धर्मात्मना मुक्तौ रामेणामित तेजसा एकस्थानगता यत्र चत्वारः पुरुषर्षभाः लोकपालसमाः शूराः कृतास्त्रा दृढविक्रमाः विभीषणः सुग्रीवश्च महातेजा महेन्द्रसमविक्रमः एते शक्ताः पुरीम् लङ्काम् सप्राकाराम् सतोरणाम् उत्पाट्य सङ्क्रामयुतम् सर्वे तिष्ठन्तु वानराः यादृशम् तद्धि रामस्य रूपम् प्रहरणानि च वधिष्यति पुरीम् लङ्कामेकस्तिष्ठन्तु ते त्रयः रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी बभो वधुर्धर्षतरा सर्वैरपि सुरासुरैः प्रहृष्टयोधा ध्वजिनी महात्मनाम् बनौकसाम् सम्प्रति योद्धुमिच्छताम् फलम् विरोधे रशमो विधीयताम् प्रदीयताम् दाशरथाय मैथिली इत्यार्षे श्रीमद् रामायणे आदिकाव्ये युद्धकाण्डे पञ्चविंशः